त्रयोदशोऽध्यायः ध्यानम् ॐ बालाल्पमण्डलाभागां चतुर्बाहुं त्रिलोचनां पाषां कुशवराभीतिर्धारयन्तीं शिवां भजे ॐषिरुवाच एतत्ते कथितं भूप देवी माहात्म्यमुत्तमम् एवं प्रभावा सा देवी ययेदं धार्यते जगन् विद्या तथैव क्रियते भगवद्विष्णो मायया तया त्वमीश वैश्यश्च तथैवाण्डे विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमिष्यन्ति चापरो तामुपैः महाराज शरणं परमेश्वरीम् आराधिताशैव भोगस्वर्गापवर्गदा मार्कण्डे इति तस्य वच श्रुत्वा सुरथ सदराधिपः प्रणिपत्य महाभागं तमृसिं संस्कृतभ्रतं निर्विण्णोतिममप्रेन राज्ञाप्रहरणेन च जगाम सद्यस्तपसि स च सन्दर्शनासमम्बायां नदी संस्थितः स च वैश्यस्तपस्ते देवी सूक्तं परं जपन् तौ तस्मिन् पुलिने देव्याः कृत्वा मृतिं महिमयीम् अर्हणां च क्रतुस्तस्याः पुष्पधूपातर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ ददस्तु स्तौ बलिं चैव निजगात्रा सुगुक्षितम् एवं समाराधय तोतिभिर्वैशै यतात्मनो देवं समाराधयस्त्रोः स्त्रीभिर्वर्यतात्मनो परितुष्टा जगद्धात्री प्रत्यक्षं प्राहचण्डिका देव्युवाच यत्प्रार्थयति त्वया भूप त्वया च पुनरन्दनं मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् मार्कण्डे उवाच ततो वव्रेणिपुराजं बिभ्रंशन् बिभ्रंशन्यजन्मनि ततो वव्रेणिपुराज्यं बिभ्रंसन्यजन्मनि अत्रैव च निजं राज्यं अत शत्रुबलं बलात् सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विन्नमानसः ममेत्यहमिति प्राज्ञ सङ्गविच्युतिकारकं देव्युवाच स्वल्पैरहोभिर्णिपते स्वं राज्यं प्राप्स्यते भवान् हत्वारि पुनःस्फलितम् तव तत्र भविष्यति मृतश्च भूय सम्प्राप्य जन्मदेवा विवस्वतः सावर्णिको नाम मनो भवान् भुवि भविष्यति दैश्यवर्य त्वयायश्च वरोस्मत्तोऽभिवाञ्छितः तं प्रयक्षामि तव ज्ञानं भविष्यति मार्कण्डे उवाच इति यथा तयोर्देवी यथाभिलषितं वरं बभूवान्तर्हिता सज्जो भक्त्या ताभ्याम् अभीष्टुताम् एवं ते जा वरं लब्ध्वा सुरतचर्त्रियर्षभ सूर्याञ्जन्म समासाद्य सावर्णेर्भविता मनुः एवं देव्या वरं लब्ध्वा सुरथ क्षत्रियर्षभः सूर्याञ्जन्म समासाद्य सावर्णीर्भविता मनुः क्रीं ॐ श्रीमार्कुण्डे पुराणे सावर्णिके मन्वन्तरे देवी देवीमहात्मे सुरथवैस्ययोर्वरप्रदानं नाम ॐ श्रीजगदम्बायै नमः श्रीदुर्गायै नमः